अथा अर्गलास्तोत्रम् ओ अस्य श्री अर्गलास्तोत्रमहामन्त्रस्य विष्णु ऋषिः अनष्टोच्छन्दः श्रीमहालक्ष्मीर्देवता श्रीजगदम्बा प्रीतये सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ओम् जयन्ती मङ्गलाकाली भद्रकालीकपालिनी दुर्गा क्षमा शिव धात्री स्वाहा स्वधा नमोऽस्तु ते जय त्वम् देवि चामुण्डे जयभूतार्तिहारिणि जय सर्वगते देवि कालरात्रि नमोऽस्तु ते मधुकैकभविद्राविधातृवरदे नमः रूपम् देहि जयम् देहि यशो देहि द्विशो जहि महिषासुरनिर्नाशिभक्तानाम् सुखदे नमः रूपम् देहि जयम् देहि यशो देहि द्विषो जहि रक्तबीजवधे देवि चण्डमुण्डविनाशिनि रूपम् देहि जयम् देहि यशो देहि द्विशो जहि निशुम्भस्य धूम्राक्षस्य च मर्दिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि रूपम् देहि जयम् देहि यशो देहि द्विषो जहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपम् देहि जयम् देहि यशो देहि द्विषो जहि सर्वदा भक्त्या चण्डिके दुरितापहे रूपम् देहि जयम् देहि यशो देहि द्विशो जहि सुवध्रो भक्तिपूर्वम् त्वाम् चण्डिके व्याधिनाशिनि रूपम् देहि जयम् देहि यशो देहि द्विषो चण्डिके सततम् ये त्वामर्चयन्तीह भक्तितः रूपम् देहि जयम् देहि यशो देहि द्विशो जहि देहि सौभाग्यमारोग्यम् मे परमम् सुखम् रूपं देहि जयम् देहि यशो देहि द्विशो जहि विधेहि द्विशताम् नाशम् विधेहि रूपं देहि जयम् देहि यशो देहि द्विशोजिहि विधेहि देवि कल्याणम् विधेहि परमां श्रियम् रूपम् देहि जयम् देहि यशो देहि द्विशोजिहि सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके रूपम् देहि जयम् देहि यशो देहिद्विशो जहि विद्यावन्तम् यशस्वन्तम् लक्ष्मीवन्तम् जनम् कुरु रूपम् देहि जयम् देहि यशो देहिद्विशो जहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे रूपम् देहि जयम् देहि यशो देहि द्विशो जहि चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि रूपम् देहि जयम् देहि यशो देहि द्विशो जहि कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके रूपम् देहि जयम् देहि देखी यशो देहि द्विशो जहि हिमाचलसुतानाथ संस्तुते परमेश्वरी रूपम् देहि जयम् देहि यशो देहि द्विशो जहि इन्द्राणीपतिसद्भावपूजिते परमेश्वरी रूपम् देहि जयम् देहि यशो देहि द्विषो जहि देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि रूपम् देहिजयम् देहि यशो देहि द्विषो जहि देवि भक्तजनोद्दामदत्तानन्दोदये मृगे रूपम् देहि जयम् देहि यशो देहि द्विषो जहि पत्नीम् देहि मनोवृत्तानुसारिणीम् तारिणीम् दुर्गसंसारसागरस्य कुलोद्भवा इयम् स्तोत्रम् पठित्वा तु महास्तोत्रम् पठेन्नरः स संख्या सप्तशती सङ्ख्यापरमाप्नोति सम्पदा इति देव्या अर्गला स्तोत्रम् सम्पूर्णम्